श्रीहरये नमः अत एकोनविंशोऽध्यायः श्रीभगवानुवाच यो विद्याश्रुतसम्पन्न आत्मवान्नानुमानिकः मायामात्रमितं ज्ञात्वा ज्ञानं च मयि सञ्सेत् स्वार्थो हेतुश्च सम्मतः स्वर्ग चैवापवर्गश्च नान्योऽर्थो मधृते प्रियः ज्ञानविज्ञानसंसिद्ध पदं श्रेष्ठं विदुर्मम ज्ञानीप्रियतमोऽतो मे ज्ञानेनासौ विपर्ति जपोदानं पवित्राणि तराणि च नालं कुर्वन्ति तां सिद्धिं याज्ञानकलया कृतं तस्मात् ज्ञानेन सखितं ज्ञात्वा स्वात्मानमुद्धव ज्ञानविज्ञानसम्पन्न भज भक्तिभाविदः ज्ञानविज्ञानयज्ञेन मामिष्ट्वात्मानमात्मनि सर्वयज्ञपतिं मां वै संसिद्धिं मुनयो गमन् त्वय्युद्धवाश्रयति यस्त्रिवितोऽविकारो मायान्तरापतति नाद्यपवर्गयोर्यज्जन्मादयो अस्य यदमीतव तस्य किं स्युः आद्यन्त्योर्यद सधोऽस्ति तदेव मध्ये उद्धवो वाच ज्ञानं विशुद्धं विपुलं यथैद्वैराक्यविज्ञानयुतं पुराणम् आह्याकिविश्वेश्वरविश्वमूर्ते त्वद्भक्तियोगं च मगद्विमृग्यं तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनिश पश्यामि नान्यश्चरणं तवाङ्ग्रे द्वन्द्वात पत्रात् अमृताभिवर्षात् दष्टं जनं सम्पतितं विलेस्मिन् काला हिना क्षूत्रसखोरुतर्षं समुद्धरैनं कृपया बवर्ग्यैर्वचोभिरासिञ्च महानुभाव श्रीभगवानुवाच इत्थमेतत्पुरा राजा भीष्मं धर्मभृतां वरम् अजातशत्रो भप्रच्छन् सर्वेषां नोनु शृण्वतां निवृत्ते भारते युद्धे सुहृन्निधनविक्वलः श्रुत्वा धर्मान् बहून् पश्चान् मोक्षधर्मान् अपृच्छत तानहं ते बिधास्यामि देवव्रतमुखाश्रुतान् ज्ञानवैराग्यविज्ञान श्रद्धा भक्ता ्युभभ्रह्मितान् नवैकादश पञ्चत्रीन् भावान् भूतेषु येन वै ईशे तातैकमप्येषु तज्ज्ञानं मम निश्चितम् एतदेव विज्ञानं न तत तैकेन पश्येत् भावानां त्रिगुणात्मना आधावन्ते च मध्ये च सृज्यात्सृज्यं यधन्वियात् पुनस्तत्प्रतिसङ्क्रामे अश्चिष्येत तदेव सत् श्रुतिप्रत्यक्षमैतिह्यम् अनुमानं चतुष्टयं प्रमाणेषु अनवस्थानात् विकल्पात् स विरज्यते कर्माणां परिणामित्वात् आविरिञ्च तमङ्गलं विपश्चिन्नस्वरं पश्येत् अदृष्टमपि दृष्टवत् भक्तियोगपुरैवोक्त प्रीयमाणाय तेन घ पुनश्च कथयिष्यामि मद्भक्ते कारणं परं श्रद्धामृतकथायां मे सश्वन्मदनुकीर्तनम् परिनिष्ठा च भूजायां स्तुतिभिस्तवनं मम आदरः परिचर्यायां सर्वाङ्गै अभिवन्दनं मद्भक्तपूजाप्यधिका सर्वभूतेषु मन्मथी मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणं मय्यर्पणं च मनस सर्वकामविवर्जनम् मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च यष्टं धत्तं हुतं जप्तं मधर्तं यत् व्रतं तपः एवं धैर्मैर्मनुष्याणां मुद्धवात्मनिवेदिनां मयि सञ्जायते भक्ते कोन्योऽर्थो शावशिष्यते यर्पितं चित्तं शान्तं तत्त्वोपभृंहितं धर्मज्ञानं सवैराग्यम् ऐश्वर्यं चाभिपद्यते यदर्पितं तत्विकल्पे इन्द्रियैः परिधावति रजस्वलं चासन्निष्टं चित्तं विद्धिविपर्ययं धर्मो मद्भक्तिकृत्प्राप्तो ज्ञानं चैकात्म्यदर्शनं गुणेश्वसङ्घो वैराग्यम् ऐश्वर्यं चाणिमादयः उद्धवो उवाच यमः नियमो वारि कस्सम कोधमः कृष्ण कातितिक्षाधृतिः प्रभो किं दानं किं तपःसौर्यं किं सत्यं ऋतमुच्यते कस्त्यागः किं सुखं दुःखमेव च कः पण्डितः कश्च मूर्घः खक् पन्था उत्पतश्च खः गृहं क आढ्यक्को दरिद्रोवात् कृपणः कः मम ब्रूहि विपरीतांश्च सत्पथे श्रीभगवानुवाच अहिंसा सत्यमस्तेयम् असङ्गोह्री असञ्चयः आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयं शौचं जपस्तपो होम श्रद्धादित्यम् तीर्थाटनं परार्थतेहा तुष्टिराचार्यसेवनं येथेयमास्स नियमा उभयो द्वादश स्मृताः पुंसाम् उपासितास्थात यथा कामं दुहन्ति हि समोमन्निष्ठथा बुद्धेर्धम इन्द्रियसंयमः तिथिशातुक्कसम्मर्शो जिह्वोपस्तजयो धृतिः दण्डन्यासः परं दानं कामत्यागस्तपस्मृतं स्वभावविजयः शौर्यं सत्यं च समदर्शनं ऋतं च सुनृता वाणी कविभिः धर्मयिष्टं धनं नृणां यज्ञोऽहं भगवत्तमः दक्षिणाज्ञानसन्देशप्राणायामः परं फलं भगोम ऐश्वरो भावो लापो मद्भक्तिरुत्तमः विद्यात्मनि पिधा बाधो जुगुप्सा अकर्मसु श्रीर्गुणानैरपेक्षा ध्यान् सुखं दुःखसुखात्ययः दुःखं कामसुखापेषात् पण्डितो भन्त मोक्षभेत् मूर्खो देहाद्यघं बुद्धे पन्तामन्निगमः स्मृतः उत्पतश्चित्त विक्षेप स्वर्गसत्त्वगुणोदयः नरकस्तममुन्नाहो बन्धुर्गुरुरहं सखे गृहं शरीरं मानुष्यं गुणाड्यो ह्याढ्यमुच्यते दरिद्रो यस्त्वसन्तुष्ट कृपणो योजितेन्द्रियः गुणेषु असक्तधीरीशो गुणसङ्गो विपर्ययः एत उद्धवते सर्वे साधु निरूपिताः किं वर्णितेन बहुनां लक्षणं गुणदोषयोः गुणदोषदृशेर्दोषो गुणस्तूभयवर्जितः इति श्रीमद्भागवते महापुराणे एकादशस्कन्ते एकोनविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्धा सद्गुरुनाथमहाराज के जय